यो भूतम् जलम् च कर्मयश्चाभितिष्ठति स्वाहायश्च जलम् तस्मै ज्येष्ठाय ब्रह्मणे नमः स्तम्भेनैव तिष्ठभिजेद्योश्च भूमिश्च तिष्ठतः स्तम्भ इदम् सर्वमात्मन् वध्यप्रारम्भ्य विषश्च ्रोः प्रजात्यायमायञ्यार्कमभितो विशन्द बृहन्धो रजतो विवादो हरितो हरे नेराक्रमेकम् त्रीणि लभ्याधिकमुदच्छीनेन तत्राह दास्त्रीणि शतादि शङ्कः षष्टिश्च हीनादे इदम् सर्वदर्विजः तस्मिन् धारित्वमिच्छन्ते गजः आदिहितम् गुहाजर्नामहत्पदम् तत्रेदम् सर्वयातिष्ठितम् एकचक्रम् वर्तते सहस्राक्षरम् प्रकुरोति पश्चात् पञ्चमादेव हत्यग्रवेराम् पृष्टव्यो युक्ताः सुसम्मर्हन्ति अया तवश्च यातम् परम् मे दीयो तिर्यज्ञेरश्च विश्वनो परम् तदा सप्त साकं ये अस्य गोपामहतो भोवः या पुनस्ता युजया च पश्चाद्या विश्वतोः युज्य देया च सर्वदाः ययाः यज्ञाङ्कायते तान् ताः पृच्छादिकत यदे यत देय चिमेशच्च तत्रापथिवीम् विश्वम् तत्सम्भूय भवत्येकमेव अनन्तम् वितर सम्भोत्रानन्तवन्तवच्चासम् ते तेनाहारश्च रतिनिम् विद्वाम्भोदपदभव्यस्याः प्रजापतिश्च रे अन्तर्श्यमानो भूढावि ञारहितस्यान्दम् कतमः सकेतुः ओर्ध्वम्भरम् तमुदरणम् कुम्भे देवोदहार्य पश्यन्ति सर्वे चक्षुषा न सर्वे मनसाविदुः दूरे पूर्णे न वसति दूरपूर्णेन हीयते मान्यक्षम् भुवनस्य मध्ये कसशै वयम् राष्ट्रमृतोः भरन्दि यदा सूर्य उदेत्यस्तम् यत्र जगच्छति तदेव मङ्गेहम् ज्येष्ठम् तरुणात्ये दिविञ्चना ये अनुवानम् मध्य उत वा पुराणम् वेदम् विद्वान् सरमभितमवदन्ति आदित्यमेव ते परी वदन्ति शास्त्राव्यम् विस्य वक्षो हरेण धंसश्च स देवान् सर्वानुवस्तु पद्य सम्पश्यस्यादिभव सत्येनोर्ध्वस्तव निर्ब्रह्म्यते प्राणेन तैदयम् नेष्टमधिश्रुतम् यो वैन विद्याकरणेनाध्याम् मध्य देवतो विद्वान् ज्येष्ठम् अपारग्रे समभवत् स्व अग्रे स्वारभर चतुस्वाद्भो त्वा भोग्य सर्वत्र भोजनम् भोग्यो अङ्ग स्यात्म ओरात्रे प्रजायते अन्यो अन्यस्य रूपयोः शरं दाश्रयुगम्युलमसम् ध्येयम् समस्मिन् निवेष्टम् रथस्य विनश्च तस्मात् देवोदेव बालादे कर्मणीयस्कमुदै तन्नेव दृश्यते ततः परिष्वीयसी देवता मम प्रिया यस्मै लताम् को मारबुधवाहकुमारीर्णौ शेन पञ्चसितम् जातो भवसि विश्वतोमुखः उदैशाहम् वितासवः पुत्रेषामुदैश्च उदमा जनिष्ठः एको देवो वनशिक्षप्रथमो जातः समुदर्भे अन्तः पूर्णाति पूर्णम् पूर्णेन शिक्ष्यते उतो विद्यामानिरस्तत्वादिच्यते एषा शनद्धातेषा पूराणीवम् बभूव रूपेणैवीतस्वजः अन्त्यसन्तम् न जनात्यन्तसन्तम् न पश्यति देवस्यैव्यम् नेतावाचस्तावदन्ति यथा यथा वदन्ति यत्र गच्छन् विददाहु ब्राह्मणम् महदय यत्र देवाश्च मनुष्याः स्नाराभाविव श्रिताः अपान्तपुष्पम् गच्छामि यत्र सन् मायहितम् येभिर्वादरिहिरः प्रवादिदेतरम् देवम् च इषः सद्धीतेः या इमामेषाम् पृथिवीम् हस्तयेकोऽन्तरिक्षम् प्रयेतो बभूत् दिवमेषाम् ददते योग्रीधन्ता विश्वासाः प्रतिरक्षन्ते यो विद्यात् सोत्रम् विदतम् यस्मिन् लोकाः प्रजा इमाः श्रोत्रम् सोत्रस्य सोत्रा यो विद्यात् स विद्यात् ब्राह्मणम् हल वेदाहम् श्रोत्रम् वितम् यस्मिन्नो ता प्रजाः श्रोत्रम् श्रोत्रस्याहम् वेदासो यद्ब्राह्मणम् दराद्यावाः पृथिवी अत्रदाव्याः यत्राणिष्ठन्नेवत् परस्ताखे वायम् मात ददामे प्रविष्ट प्रविष्टः बृहम् पवरितारेत्रीविचक्रवेशामधस्तृशेक् निवेश न सङ्गम नो वसुवताम् देवदेव सविता सत्यतम् स्थौ समारेधना पुण्डलीतम् नवद्वारम् दृढुणेभिरावेदनम् तस्मिन् यद्यक्षमाहात्मन्मत्तद्वै ब्रह्म विदोहविदुः रामो धीरो अमृतस्वयम्भूरश्नो नः तमेव विद्वान्मवीभाज मृत्योरात्मानम् धीरमदम् युवाहरणम् ेषु वज्रमर्पयिताम् इन्द्रेजमानस्य धातो वेदिष्टे च भवतु सन्तु निर्वातम् मार्षभे शुद्धा त्वम् ज्ञा भूत्वा दिवम् प्रेहि शदोदरे यत् शरोदरणाम् वचिकामप्रेण सर्वे यन्ति यथा यथा सत्सङ्गमारोस्ते दिवम् दिव अपोपराभिम् कृत्वा चोदरादिशतोदरणाम् सताम् लोकान् समानात्मो दिविजादे च आज्योतिषम् दृष्ट्वा ज्योत आदिषौदाम् ये, ये चेदिषभिः च ते जनाः ते त्वा सर्वे मोक्ष्यन्ति मयि ब्रह्म वैशिष्टकोदरे वसारस्त्वा दक्षिणमुत्तरान् मरुतस्त्वा आलिन्या पश्चाद्वो हन्धिराज्ञष्टोदः देवाम् विदरोः वर्ष्याः गन्धवाप्सर्वश्च ये ते त्वा सर्वे भोप्स्यन्ति सारी आत्मवदि अन्तरिक्षम् दिवम् भोरि वा दिक्षान् मरतो या ये देवादिविषदोः अन्तरिक्षरदश्च ये ते देवे भो ये द्यस्तम् दुक्षसनः क्षीरम् सर्पिर सोमसु यत्ते शिरो यत्ते मुखम् यौ कर्णौ ये च तेषु आदिक्षान् दुर्गताम् दात्रे यौतवोष्ठौ येनासीते क्षीणी आवृक्षान् दुरदाम् दात्रे क्षीरम् सद्गिरथमधो व्यक्ते क्लोमारध्वम्बुतस्सह गन्धिका आवृक्षाहम् दुतदान् दात्रे क्षीरम् सर्ग सोमधो यत्ते गर्गे मदस्वेदान्त्याश्च आमिक्षाम् दुःखताम् दात्रे क्षीरम् सर्परतामथ यत्ते नाशुर्योपविष्टव्यो कुक्षी च आमिक्षाम् दुःखताम् दात्रे क्षीरम् सर्परतामथ यत्ते मज्जायन् माम् संलक्षयो वेदम् आमिक्षाम् दुःखताम् दात्रे क्षीरम् सर्पन सामथ यौते बाहूये दोषणीया वंसौ याचते रपुत आमिक्षाहम् दुलताम् धात्रे क्षीरम् सद्विरथोऽवद यास्ते ग्रीवारे स्कन्धाया पृष्टेर्याश्च आमिक्षाहम् दुलताम् धात्रे क्षीरम् सत्यरथोऽवद यौद ऊर्वजीवन्तौ ये श्रवणी याचते भरत् आमिक्षाहम् दुःखदाम् धात्रे क्षीरम् सव्यरथामथ यत्रे वक्षम् ये ते बालाय ते सुतराणाः आमिक्षाहम् दुःखदाम् धात्रे क्षीरम् सत्यरथामथ यास्ते जङ्घायाः पुष्ठीका इच्छराय च ते समाः आमिक्षाहम् दुःकदाम् धात्रे क्षीरम् सव्यरभामथ यत्रे तन्मे सकोदरे या माह्ये आदिक्षान् दुःखरान्दात्रे क्षीरम् सत्य भक्षौ लेहे गत्वा सा भक्ताम् दिवम्भः पुलो मुसलेयश्चेदम्खरः यम्भवतो यत्कालवी वोहम् तन् वे सर्वम् सम्पद्यताम् वयम् स्यात् नमस्ते जायमानारे जातायाः उदते न्यपेभ्यो सप्त प्रवदः सप्त विद्या रामदाः शिरो यज्ञस्य विद्यात् स भेदाहम् सप्त प्रवरः सप्त वेदव रामदाः शिरोहं यज्ञस्य अहम् विचक्षणम् यया भ शतम् कंसा शतम् गोग्धा शतम् नोक्ता स्या ये, ये ना, ना, वा यज्ञाचीरा सुधा मही लोक वशा पर्जन्येभ्रम विद्युतशेषु क्षे प्रथमम् बाष्टम् धुक्षेन्नम् क्षेयम् प्रदेत्वात्यैर्वोपाधिष्ठे इन्द्रसहस्रम् मात्रान् सोमम् पापायन्द्रैव तस्मात् क्षीरम् ऋद्धो यत्ते क्लब्धो जगन्पदिना क्षीरमः कद्वदे निरन्ती त्रिलपात्रे धनुसरागेन्द्रः अथवा यत्र दीक्षितो वरिहिष्यास्त गन्धर्वः सह सन्धिनागादौ सर्वैः पदत्रिभिः वजासामिभ्रति संहितं सर्वैः रचक्षोषा वजाता मन्दवत्यक्षद्भद्रा ज्योतिषम् ऋविद्भ्रति स्वसमुद्रम् भूत्वाध्यस्तम् तद्भद्रा समागच्छन्तः अधर्मा यत्र दीक्षितस्तरन्यये वशा माताः जन्यश्च वशा मातामस्वा जय वशायाः यज्ञः योधम् ततश्चित्तमा जागत ओर्गोविन्द उदरः ब्रह्म नष्टको दाले तदस्त आस्त्यः ग्रोहरम् प्राणस्याः यज्ञेस्तनेभ्यो स्मरस्तवयजातं सत्यभ्याव आन्द्रेभ्यो यज्ञे अत्र उदरालधे विरुधा यतोणस्य तदस्माद्ब्रह्मो गिरे सर्वे गर्भे पन्तजायमानादो स्वा सर्वोरहिरा बन्धो गुणरेकः संसृजी ज्ञाः भवन्तरताम् चक्षोरभवद्महा भजा यज्ञम् प्रत्य गृह्णाद् भजातोर्यभारय भजाया स्फुरन् विश्वमरोणस्यान्दर्देत्याहे्यामध्ये राजलीलामजा चतुर्धाः आवस्तुरेः यज्ञस्तुरेः अम् वशवस्तुः वशाद्यो वशाधिरे वजाविष्ण प्रजापर्याः दुग्धमृणन्ता तस्यानुपासते स्वमन्नेनामेके हितवेसते येन विदुषेः वशान्तदुष्टे गतास्ते जिबन्दिनः ब्राह्मणेन्द्रः वशाम् दत्वा सर्वान् लोकान् समश्नुते ब्रह्मासमाः वशान् देवा उपरजीवन्ति वशान् दशमम् काण्डम् समाप्तम् अथ एकादशम् काण्डम् ओ अग्लेशाय स्वादिजन्माभिम् वरजय पुत्रका सप्त सप्तयोस्ते त्वारिम् सर्वं नियच्छ समिद्धो अग्ने समिधा समिध्यस्त विद्वान् देवाम् यज्ञेया येन समयम् जातवत्तरमं नाटमीरा पुरावो देवानाम् पितॄणाम् अध्यात्नाम् अंशान् जाने द्वं भजापितान् देवानां शनिमाम् पारे अग्ने सहस्वान विभो रवेदण्ड सम्रा इयं मात्रा पीयमाना च जातां स्ृणोद साकं स जाते पय कस्याधष्टम् अथ गच्छस्य लोकम् एतो ग्रामौ श्रयुजायुङ्यन्ध्यं सोम्यजनमानाय साधु यत मां स्वम्बे धरामि यन्ते पुत्रः परा पुरे माम् प्रेतम्यवस्ये अयम् सर्वमेरम् नियच्छात् उपश्वासे ध्वेः धीरतायूरम् यज्ञिराधस्तुः श्रेयासमानाम् परे पुनरे दासाङ्गीराद्य धीरेन्द राजहीराज धेर्वान् गुरुजोम्भवानामुत्तिष्ठनानि नवकम् न सुवद्देवत्या प्रजा प्रजावत्या स्वागम् यज्ञः प्रदे कुम्भङ्गर्जुभागो निः द्वयः पुरापरे अये यज्ञासा विभिन्ना धृष्टजाविदव्यद्विः अविद्ध हे जरुज्ञाध्यवृक्षस्तव शाकैरम् दैवादिसङ्गत्य भागभिमन्तो शुद्धा पूता योषितो यज्ञयाः जिवारश्चर्मन्त शुद्धाः अथ प्रजान्नशोन्न प्रक्तौ धनस्य सुकृताः प्रेतुलोकम् ब्रह्म शुद्धा, शुद्धा, शुद्धा उत पूता ऋते न सोपस्यां शण्डुला यज्ञयाः इवे अम प्रदेशः प्रदेशह्णातमश्च भक्ता सुकृताः वेदलोकम् पुरप्रदस्त्व सहस्रदृष्ट स्व्रतस्य लोके पितामहात्मिनः पिता प्रजापराहम् भक्ता पञ्चदधस्ते दन्हा अस्मि सहस्र नष्ट शरथाः रोक्षीरो ब्रह्मो धनोदे मया स्वर्गः प्रलया वैषयिणाम् वलहाराय मृदताम् एव उदे वेदिम् प्रजा मद्धयिणाम् मृगस्वप्रदरम् धैर्येनाम् श्रेयाशमाना जगत महान् श्यामासपदम् देढदस्मादयामि अद्यावर्तस्व मनुभिः सहैराम् प्रत्यगेनाम् देवताभिः सहैः प्रापच्छमथस्त्रे अनेन ऋतेन चष्टा मनसाहिदैः ब्रह्मोरस्य अलीता मे निरः अं सद्वर्धे विना ऋत प्ररोदरम् साहायीवानाम् अरिते रहस्ताम् सुजाम् द्वितीयाम् सप्तऋषयो भूत श्रे पुनरेना सोमेणोतो जहरे तेन ब्रह्मयास्ते माले सम्प्राधिकारः सोमेभ्यः ब्राह्मणे त्व प्रसीदात् शुद्धा यज्ञयादि ब्रह्मणा हस्ते जगवचा प्रदयामि मोहमिन्द्रो भरद्वान् सदङ्गे निरं मे ज्योति रमितम् हिरण्यम् भगवन् क्षेत्र निरन्धरं निरन्धे जन तौ निध्यसंवरतः पन्थाहम् सङ्गमधेरभरेयम्भायद्वयमुत्तरम् नागम् परमेल यज्ञम् सन्धयम् तदनन्दरीणाम् प्रजामृतत्वमुतदीर्घवायोः रायश्च स्वमृता लोकेशी तदम् स्मृतम् सवापी स्वामृतम् प्रजतः यज्ञे मधः कल् परळे प्रजा एतैष्व कृतैरनुगच्छ यज्ञम् न च तिष्ठन्त सप्त स्मो येन देवाज्योतिषाच्यानुदायम् ब्रह्मो धनम् मत्वा सुतस्य लोकनम् तेन ष्म सुभृतश्च लोकाङ्ग् माभिम्भो गोपदे नष्टम् मानो त्रिंशष्टम्परः श्रु क्रोष्टे पादरे रात्र मलिकेभ्यो रुद्रे भ्रोये च कृष्णः श्याः लक्षेतास्तेव शुभदेवयान् दिवि क्रन्दाय प्राणायाश्च देव नमस्ते रुद्रः सहस्राक्षायाम पुरस्ताण्णोत्तराय धरा अभिदिवस्पर्यन्तरिक्षाय ते नैव शुभदय चक्षोरुषे नमः अंगे त्वचेपाय सन्दृशे प्रवेशे राजवनः अङ्गेभ्यस्त उदरायः आस्यायते भग्रौशङ्घाय तैलः आश्रयेण त्रिगण्डेन सहस्राक्षणेन धादिराजेन स परेण रक्तयाग्निः परेण रक्तनोभास्मै चतुर्नवो अष्टरक्तो भवाय रतः पशुपदे नवस्ते तरे मे पञ्च पशव विभक्ता गा वा श्वा पुरुषा च वयः तव चतस्रः प्रतिहस्तवद्योस्तवधेरभैरव गौर्वा आन्तरिक्षम् धा नस्तृ विश्वाभुव्यन्तः सदो जगपते नमस्ते परः कोष्टः परो सहस्रग्रे रुद्रेतश्चरस्तस्यै त्वाम् रुद्रविरे धे पश्चाद प्रयुङ्कम् युद्धस्य वदने भवाद्रौ सयिताः संविदा राह रुद्रौ च वीर्याः प्रान्नमो रामस्यान् देहे नमस्ते रुद्रनिष्ठाशे नोदरे नमस्तायम् नमः प्रातर्नमो रात्या नोभाद्याः नगरन्नमः सहस्राक्षमादिपश्यम् पुरस्ताम् नृत्यपश्यम् तम् बहुशादि पश्यम् भोपा रामशिंहानम् श्याश्वम् कष्टवचेतम् हनन्तम् धीमम् नतम् यशिरः पालयन्तम् प्रतिः भो नवो हस्तस्महि मानो निःश्रावम् देवहेतुम् मानस्पु नः पजुपते न वत्ते अन्यत्रापद्दिव्याम् शाजाम् विधो मानोहिंसे रीरान् द्रोहे परेणा मानो अन्यत्रो ोषपुरोषे समादेजा अन्यत्र अभिमोर्वम् निर्णयः अस्मस्मै यो तस्मै नो न्यक् पमे मृगावरे हिलांसा स्वपर्णाश्च पुयांसे तव लक्षम् वदन्तस्तोभ्यम् चरञ्जीव्यामो श्रींसु महाराजगराः को लेखयामस्या रजयसारेभ्यो अस्य रथि निष्ठाश्चेद् भव सद्यः सर्वान् भवे पश्यति भोणिम् पूर्वस्मात्रे मानो रुद्धिर्येनाग्नि अन्यत्रास्मद्युतम् पादयिताम् भवो जिवो भवती च पृथिव्याभवा कुर्मान्तरिक्षान् मानो महान्त मातरम् च स्वाम् तन्नम् रुद्रनारेभ्यो पदम् सोक्तयेभ्यः इदम् नमस्ते रोहिणेभ्यो नमस्ते गेहिणेभ्यः नमो नमस्कृताभ्यो नमः शम्भुञ्जयेभ्यः नमस्तेभ्यस्वस्तिराभनः तस्य धनस्य बृहस्पतिशिरा ब्रह्ममुखम् साक्षे दाणा चिरिश्वर अश्वाखागामस्तो भवेकर भ्रम् श्रावस्य मांसारस्य भेदम् तमु भस्म हरिदम् न पुष्करमस्य गन्धः खमात्रानुष्ठांसा विषयालोक्ये आन्त्राणि यत्र इयमेव ब्रह्म नापरिगृहीणाम् नापर्योढा बृहराजमाक्ताय आत्मयमास्त त्याः यस्मिन् समुद्राल्याः परम् शराः यस्य देवालौ परन्तोक्षरशीतः परन्तोः धनस्य प्रक्षाविना महिमा महान् सयोः महिमानम् विद्याल्पैरे शलम् च इति यावद्वाताहे वनस्य च कङ्गादेव ब्रह्मवारिणोचमो भ्रातेः चरञ्च मिले त्वमो धनम् राते स्वाञ्चरम् भ्रातेः स्वानामा स्वाहा अत्यञ्जम् तैलम् राजेनास्ताः सन्ते